एन्पाव दशकम् प्रगासुरवदमं विष्णुवरत्वमम् रमा जाने जाने यदिह तव विभवो न सत्य सम्पद्य तदिकमदकृत्वादच मिना प्रशान्तिम् कृत्वैव प्रदिशि तत काममखिलम् प्रशान्तेषु क्षिप्रम् न कलु सत्यप्रसाध रुषितान् विदिशङ्करादीन् केचित् विभो निज गुणानुगुणम् भजन्त भ्रष्टा भवन्तीभत कष्टमदीर्घदृष्ट्या स्पष्टम् मृगासुर उदाहरणम् किलास्मिन् स गुनिज स तु नारदमेकदा त्वरितदोषमभृच्छ ददीश्वरम् सचदिते च क्रिरीचमुपासितम् न तु भवन्तमबन्तुमसाधुषो तबस्तप्त्वा गोरम् सकलु ने चिरचित्वा सत्य पुरकरमुपस्थाप्य पुरता अतिक्षूद्रम् रौद्रम् चिरसि करदानेन निदनम् जगन्नातात्वव्रे भवति विमुखानाम् क्वशुबी मोक्तारम् बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोतरुद्रम् दैध्याद्भीत्या स्मदेवो दिशि दिशि वलते पृष्ठो दूष्णीके सर्वलोके तव पदमदि रोष्यन्तमुद्वीक्ष्य सर्वम् दूरादेवाग्रतस्त्वम् पटुवटु वपुष तस्तिषेदानवायाम् भद्रम् त्वम् पिशाच्यवासा सन्देकश्चेन्मदुक्थौ तव किमुन करोष्यङ्गुलीमङ्गमौलौ इत्थम् त्वद्वाक्यमूढ शिरसि कृतकर शोभतश्चिन्नपाथम् ब्रंशो हुम् किल सरस्वती निकटवासिनस्तापसा त्रिमूर्तिषु समादिशन् अधिगसत्त्वता वेदितुम् अयम् पुनरनादरात् उदितरुद्धरोषे विधो हरेऽपि च जिहिंसिषो सुप्तम् रमाङ्गभुविपङ्गजलोचनम् त्वाम् विप्रे विनग्नतिपदेन मुदोतितस्त्वम् सर्वम् समक्ष्ममुनिवर्य भवेत् सदा मे त्वत्पादशिघ्नमिघभूषणमित्यवादी निश्चित्यतेष सारस्वत मुनिवरादतिरे विमोक्षम् त्वामेवमश्रुत पुनःश्रुतिदोषहीनम् सत्त्वोश्च यैकतनुमेव वयम् भजाम जगत्सृष्ट्यादौ त्वाम् निगमनिवहैर्वन्दिभिरिव स्तुतम् विष्णो सच्चेत् परमरस निर्द्वैतवपुषम् परात्मानम् भूमन् पशुपवनिता भाग्यनिवहम् परीता पश्यान्त्यै पवनपुरवासिन् परिभजे भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मोटमधे